गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् त्वामग्ने जलदानाहुः खे विद्युतः दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः जातवेदस्त्वयै वेदं विश्वम् दृष्टम् महाद्युते तवैव कर्मविहितं भूतं सर्वं चराचरम् त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् त्वयि हव्यं च कव्यं त्वमेव दहनो देव त्वम् धाता त्वम् बृहस्पतिः त्वमश्विनौ मित्रः सोमस्त्वमसि चानिलः वैशम्पायनुवाच एवं स्तुतस्तदातेन मन्दबालेन पावकः स्तुतोषतस्य नृपते मुनेरमित उवाच चैनम् प्रीतात्मा किमिष्टम् करवाणिते। तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् प्रदहन् खाण्डवम् दावम् मम पुत्रान् विसर्जय तथेति तत्प्रतिश्रुत्य भगवान् हव्यवाहनः